योगफलविधे नमः ॐ संयमप्रकारप्रकटनाय नमः ॐ योगिगम्यसंस्थात्मने नमः ॐ योगियात्राव्याहर्त्रे नमः ॐ युक्तलक्षकाय नमः ॐ योगपरभूमिकानिगादकाय नमः ॐ विषयोपरतिपदाय ने नमः ॐ योगिप्राप्य परसुखाय नमः ॐ सर्वभूतस्थात्मदर्शिने नमः ॐ आत्मस्थसर्वदर्शिने नमः ॐ विद्वत्सन्निहिताय नमः ॐ विद्वदविक् वियुक्ताय नमः ॐ परमयोगिधर्मज्ञाय नमः ॐ मनोनिग्रहमार्गविदे नमः ॐ योगभ्रष्टगतिविदे नमः ॐ कल्याणारम्भशंसिने नमः ॐ लोकद्वायानुग्रहीतयोगभ्रष्टाय नमः ॐ अभ्यासफलप्रापकाय नमः ॐ अनेकजन्मयोगगम्याय नमः ॐ योगफलसमाप्तिभूमये नमः ॐ परापरप्रकृत्यधिष्ठात्रे नमः ॐ जगज्जन्मादिहेतवे नमः ॐ परात्पराय नमः ॐ सर्वाधिष्ठानाय नमः ॐ रसाय नमः ॐ शशिसूर्यप्रभात्मने नमः ॐ प्रणवात्मने नमः ॐ शब्दात्मने नमः ॐ पौरुषात्मने नमः पुण्यगन्धात्मने नमः ॐ तेजसे नमः ॐ जीवनाय नमः ॐ तपसे नमः ॐ सनातनबीजाय नमः ॐ बुद्धये नमः ॐ कामादिवर्जितबलाय नमः ॐ धर्माविरुद्धकामाय नमः ॐ सर्वभावाधिष्ठात्रे नमः भावास्पृष्टाय नमः ॐ सर्वजगदज्ञाताय नमः ॐ दुरत्ययमायने नमः ॐ प्रपन्नतीर्णमायाय नमः ॐ नराधमाप्रपन्नाय नमः ॐ बहुजन्मप्राप्यज्ञानगम्याय नमः ॐ सुदुर्लभमहात्मवेद्याय नमः ॐ प्रकृतेनियतार्थिद् देवाय नमः ॐ भक्तश्रद्धाविदायनय नमः ॐ कर्मफलविदात्रय नमः ॐ भक्तगम्याय नमः ॐ बुद्ध्यविदिताय नमः ॐ आतीतातिविदे नमः ॐ अपापसेव्याय नमः ॐ आर्तजनाश्रयाय नमः ॐ जिज्ञासुसेविताय नमः म् अर्थात्रिपार्त्रय नमः ॐ ज्ञानिजिनाविदाभृताय नमः ओम् ज्ञानिप्रियाय नमः ओम् प्रियज्ञानिनय नमः ओम् ज्ञानिरूपाय नमः ॐ ज्ञान्यास्तितोत्तमागमद्गतये नमः ॐ युक्तचेतो विदिताय नमः ओम् अक्षरब्रह्मणे नमः ओम् अध्यात्मादिविदे नमः ओम् अधियज्ञाय नमः ॐ प्रयाणकालस्मृतिप्राप्याय नमः ॐ सर्वकालस्मर्तव्याय नमः ॐ कवये नमः ॐ अनुशासित्रे नमः ॐ अणोरणीयसे नमः ॐ सर्वधात्रे नमः ॐ अचिन्त्यरूपाय नमः म् आदित्यवर्णाय नमः ॐ तमसः परस्मै नमः ॐ योगबलप्राप्याय नमः ॐ वेदविदुतिताय नमः ॐ वीतरागगम्याय नमः ॐ ब्रह्मचर्यवर्णीयाय नमः ॐकारगम्याय नमः ॐ योगिसुलभाय नमः ॐ अनन्यचेतस्सुलभाय नमः ओम् अप्नरावृत्तिपदाय नमः ओम् अव्यक्तसनातनभावाय नमः ओम् अनन्यभक्तिलभ्याय नमः ओम् अन्तःस्थितभूताय नमः ॐ कर्मबन्धरहिताय नमः ॐ प्रकृत्यवष्टम्भाय नमः ॐ सर्वव्यापिनय नमः ॐ ज्योतिरादिगतिगम्याय नमः ॐ कृष्णगत्यगम्याय नमः शुक्लकृगतिशंसने नम ओं राजविद्यागुरव नम ओम राजविद्याष नम ओंजग्व्या नम ओं अव्यक्तमूर्त नम ओंताधारा नम ओं ओम नम ओं भूतास्पृष्टा नम ओं भूतभ नम ूतभृतये नमः ॐ कल्पान्तलीनभूतप्रभृतये नमः